अथ अष्टाविंशम् दशकम् गरळम् तरलानलम् पुरस्ताज्जलधेरुद्विजगालकालकूटम् अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् विमथत्सुसुरासुरेषु जातासुरभिस्तामृषिशून्यथा स्त्रिधामन् हयरत्नमभूदथे भरत्नम् द्युतरुश्चाप्सरसुरेषु तानि परा तदानीम् कमनीया कमला बभूव देवी कमलामवलोक्ययाम् विलोलः सकलोऽपि स्पृहयाम् बभूवलोकः त्वयि दत्त हृदे तदैव त्रिदशेन्द्रो मणिपीठिकाम् व्यतारीत् सकलोपहृताभिषेचनीयैर् ऋषयस्ताम् श्रुतिगीर्भिरभ्यषिञ्चन् अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् मणिकुण्डलपीतचेलहार प्रमुखैस्ताममरादयोऽन्वभूषन् वर्णस्रजमात्तभृङ्गनादाम् दधती सा कुचकुम्भमन्दयानाम् पदशिञ्जितमञ्जुनू पुरा त्वाम् कलित गिरिशद्रुहिणादि सर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् अवमृश्य सदैव सर्वरम्ये दिव्यमाला उरसातरसा ममानिथैनाम् भुवनानाम् जननीमनन्यभावाम् त्वदुरो अतिमोहनविभ्रमा तदानीम् मदयन्ती खलु वारुणी निरागात् तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः तरुणाम्बुदसुन्दरस्तदा त्वम् ननु धन्वन्तरिरुत्थितोऽम्बुराशेः अमृतम् कलशेवहन्कराभ्याम् अखिलार्तिम् हर दशकम्